चाणक्यनीति अयम फोर्टी पृथिव्या जलमन सुभाषित मूठ पाषाणखंड रनसा विधीय आत्माधवृक्ष फलाने देहिना दारिद्र्यदुःखरोगाणि बन्धनव्यसनानि च पुनर्वित्तं पुनर्मित्रं पुनर्भार्या hmm. पुनर्मही एतत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः बहूनां चैव समवायो रिपुञ्जयः वर्षा धाराधरो मेखस्तृणैरपि निवार्यते जले तैलं कले गुह्यं पात्रे दानं मनागपि प्राज्ञे शास्त्रं स्वयं व्यादि विस्तारं वस्तुचक्रिदः धर्माख्याने श्मशाने च रोगिणां या मतिर्भवेत् सा सर्वदैव तिष्ठे चेत् को उत्पन्न पश्चात्तापस्य बुद्धिर्भवति यादृशी तादृशी यदि पूर्वं स्यात् कस्य न दाने तपसि शौर्ये विज्ञाने विनये नये विस्मयो न कर्तव्यो बहुरत्ना वसुंधरा दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः यो हृदये नास्ति समीपस्थोऽपि दूरतः यस्माच्च प्रियमिच्छेत्तु तस्य ब्रूयात् सदा प्रियम् व्याधो मृगवधम् कर्तुम् गीतम् गायदि सुस्वरम् अत्यासन्नाविनाशाय दूरस्थानफलप्रदा सव्यता मध्य भेन राजनीस्त्रि अग्निरापस्त्रि मूर्खा सर्प राजनी चाणहरा निषठ सजीवुण यीव गुणधर्मविहीनस्य जीवितं निष्प्रयोजनम् यदीच्छसि वशीकर्तुम् जगदेकेन कर्मणा पुरा पञ्चदशास्येभ्यो गां चरन्ती निवारय प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् आत्मशक्तिसमं कोपं यो जानादिशपण्डितः एक एव ये पदार्थस्तु तृधा भवति वीक्षितः कुणपं भिक्कामि योगिभिः कामिभिःष्वभिः सुसिद्धमौषधं धर्मम् गृहच्छिद्रं च मैथुनं कुभुक्तं कुश्रुतं चैव मदिमान्न प्रकाशयेत् तावन्मौनेन नीयन्ते कोकिलैश्चैव वासराः यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते धर्मं धनं च धान्यं च गुरोर्वचनमौषधं सुगृहीतं च कर्तव्यमन्यधातु न जीवति त्यज दुर्जन संसर्गं साधुसमागमं कुरुपुण्यमहोरात्रं स्मर नित्यमनित्यदः ॐ